एतदर्हा वयम् नूनं वसामो दुर्बलस्य ये विषये नित्यवास्तव्याः कुराजानमुपाश्रिताः ब्राह्मणाः कस्य वक्तव्या कस्य वाच्छन्दचारिणः गुणैरेते हि वत्स्यन्ति कामगा पक्षिणो यथा राजानम् प्रथमम् विन्देत् ततो भार्यां ततो धनम् त्रयस्य सञ्चयेनास्य ज्ञातीन् पुत्रांश्च तारयेत् विपरीतम् मया चेदम् त्रयम् सर्वमुपार्जितम् तदिमामापदम् प्राप्य भृशम् तप्यामहे वयम् सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः भोजनम् पुरुषश्चैकः प्रदेयम् वेतनम् मया न च मे विद्यते वित्तम् सङ्क्रेतुम् पुरुषम् क्वचित् सुहृज्जनम् प्रदातुम् शक्ष्यामि कदाचन गतिञ्चैव न पश्यामि तस्मान् मोक्षाय राक्षसः सोऽहं दुःखा न वे मग्नो महत्यसुकरे भृशं सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसं ततो नः सहितान् क्षुद्रः सर्वानेवोपभोक्ष्यति इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि कुन्तीप्रश्ने एकोनषष्ट्यधिकशततमोऽध्यायः